गणेशपुराणं क्रीडाखण्डम् अध्यायं सेवेण्टि सिक्स् क उवाच वैकुण्ठे सुगमासीनमागधोन्मरसंयुतः हरिर्हरिं नमस्कृत्य निजगादप्रयोजनम् इन्द्र उवाच किन्न जानासि गोविन्दसिन्धुदैत्य कृतामि मां आपदं नोमरावत्यां दुष्टैराक्रमणं कृतम् तेन सार्धं कृतं युद्धं यथाशक्तिसुरैः सह न स जेतुं क्षमो दैत्योत्तस्त्वां शरणमन्वीयां न विना गदिर्नोऽस्ति सर्वदा त्वं गदिर निर्दालयिनं नो देहि स्थानानि उवाच श्रुत्वा हरिवचो समन्वितः उवाच तं न भीकार्या प्रविज्येष्ये सुरं क्षणाद यवमुक्त्वा कृषिकेशोरुह तद्दुडानेन च तदा च कम्बे भुवनत्रयं पतिता अवनौ वृक्षाः पक्षिवृन्दसमन्विताः किरीटकुण्डलधरो वनमाला विभूषितः कौस्तुभार्चिर्लसद्वक्षाः कस्तूरीतिलकोज्ज्वलः शङ्खचक्रगदापद्महस्तो यादोमरावधिम् ज्ञात्वा देवगणान् प्राप्तान् गरुडासनसंयुधान् युद्धाया नाना शस्त्रधरास्तदा धनुश्चक्रधरो दैत्यः सदोणो हयसङ्गदः सिन्धुरप्यागदो रोषाद्योद्धुकामो महाबलः तद कुबेरो वरुणो वायुरग्निपुरन्दरः सोमो मित्रश्च भौमश्च नासत्यौ मदनोऽपि च ततो भवद्वन्द्वयुद्धं सिन्धुदैत्ये पुरस्थिते प्रचण्डो वरुणेनाजौ कमलेन नच यक्षराट वृत्रेण शतयज्वा च निःशुम्भपवनेन च शम्भो बियुधे तत्र विष्णुना प्रभविष्णुना वह्निश्चण्डेन मुण्डेन सोमश्च युयूधे भृश्यं कदम्बेन जौमश्च मदनेन ज शम्भरः नासत्यौ कालदैत्येन ना सर्वयेवच सैनिकाः शस्त्रैरस्त्रैः प्रजघ्नुस्ते मर्मस्थानानि चासकृत केजेत् युयुधिरे मललीलया युद्धदुर्मदाः परस्परं शस्त्राखाधै केजित्तत्र प्रपेदिरे मृदा मुमूषं वक् जिदाश वल गिरे जयं परा जयं तेना प्राभु क्विद्क तदो वृत्रा सुरशक्रमहनन्मुष्टिखादः मस्तकमस्तकेनैव निजघ्नदु रथौ जा एवं हस्तेन हस्तं च पादं पादेन जघ्नदु वक्षस्तलेन वक्षश्च तदो वज्रेण सोहनत वृत्र जखानवृत्रचक्रं तं सोपदन्मूर्छितो भुवि यावत्पलायति पुरो वमन्रक्तं मुखाद् बहु तथक्पपाद भूपृष्टेहदो मूर्च्छा गदो भृशं पुनः संज्ञा मवाप्यैव वज्रकल्पेन मुष्ठिना जखानवृत्रश्चक्रं तं मूर्चिदो भुवि यावत् पलायदि सुरो वमन्नक्तं मुखाद् बहु तावद् दैत्या योद्धुकामसमयुः सर्वतोदिशं दृष्ट्वा पराक्रमं तेषां मखवां तर्दते तदा एवं ये ये कवंदो दर्े भग्नदर्पस्तु पलायनमकुत भगनषु गुडम प्राशिनोधरी चक्रदीतियादीतिया जिशो दिश अख नक्रधाराद्रेणीरने कश केचिभना दैत्या केजिभग्नशिरोधरा केजिच्च शतधा जादा शीर्ण जानूरु बाहव केजिच्च शरणं यादा नममारजनार्दनः सर्वे महाबला दैत्यामुक्तिं हरिहदा गदा मेधो मां सवहानद्यः सद्यस्तत्र प्रवर्तिताः तदशङ्गनिनादेन हरिसर्वं व्यनादयत एवं जयति गोविन्दे सर्वे शुम्भादयोऽसुराः तमेव योद्धुमायादा द्वन्द्वयुद्धं विहाय तद विराड्रूपेण भगवान् धृत्वा तांश्चतुरोऽसुरान् भिण्डिपालेन पाषाणं यथा क्षिपति मानवः च निशुम्भम् शुम्भमेव च भ्रामयित्वाक्षिपद्दूरे मध्ये कृत्वा सरिद्वरां ते मूर्च्छां परिभूयैव पुनश्च वाहिनीं गताः हृदिप्रचण्डं पृष्ठे दुवृत्रम् मुष्टिप्रहारतः जखानहरिरव्यघ्रकालं कमलमेव च भौमासुरं च शिरसि कदम्बं चक्रखादः कोलासुरं जगदया विव्याध हृदि माधवः ततः सिन्धुरगातोर्णं कृतकोलाहलारवः दिगन्तान्नादयन् प्रोजे बलं ते दर्शितं हरे ममापि पौरुषं पश्य न च गन्तुं त्वमर्हसि न मे दृष्टिगतो जीवन् रिपुर्यादिकदाचन भूतभव्यभविष्यज्ञ किं पूर्वं न विजाजितं यस्य शब्दे न च भृशं कम्पदे भुवनत्रयं तत्पुरकथमायाधक्योद इव भूषणं तदो मरगणाप्रोजुर्वल्गन्धं सिन्धुदैत्यपं शूरन् हि प्रजल्पन्ति दर्शयन्त्येव पौरुषम् अस्माकं नहरे हरे राज्ञा नो चेत् त्वं शतधा भवेः यदि श्रीगणेशपुराणे क्रीडाखण्डे षट्सप्ततितमोऽध्यायः ओ